ॐ श्री परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे सप्तमस्कन्धे द्वितीयोऽध्याय जन्मे उवाच ममाख्याहि महाभागे राज्ञां वंशं सुविस्तरं सूर्यान्द्वाय प्रचोतानाम् धर्मद्यानां विशेषतः व्यासोवाच शृणु भारत भक्ष्यामि रविवंशस्य विस्तरम् यथा श्रुतं मया पूर्वं नारदादृशिदत्तमात् एकदा नारदः श्रीमान् सरस्वत्यास्तटे शुभे आजगामाश्रमे पुण्ये विचरत् स्वेच्छया मुनिः प्रणम्या शिरसा पादौ तस्याग्रे संस्थितस्तराय ततस्य दत्त्वा कृत्वा ऋणमथादरात् विधिवेत् पूजयित्वा तम् उक्तवान् वचनं चिरम् पावितोऽहं नृशेष पूज्यस्यागमेन वै कथां कथयत् सर्वज्ञ ज्ञा चरितसंयुताम् राजानो ये समाख्यातः सप्तमेऽस्मिन् मनस्कुवे तेषामुत्पत्ति यतुला चरितं परमाद्भुतम् श्रोतुकामोऽस्म्यहम् ब्रह्मन् सूर्यभंशश्च विस्तरम् समाख्याहि मुनिष्ठेष्ठ समासव्यासपूर्वकम् इति पृष्टो मया राजन् नारदः वाचे उवाच प्रसंप्रीतः समाभाच्य मुदान्वयम् दादोवाच शृणु सत्यवती सोनो राज्ञाम्भोश मनोत्तमम् पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतं ब्रह्मा पूर्वं जगत्कर्ता भि पङ्कजसम्भवः विष्णु इति पुराणेषु प्रसिद्धः परिकीर्तितः सर्वज्ञः सर्वकर्तासु स्वयं भो सर्वशक्तिमान् तपत् त विश्वात्मा वर्षाणाम् अयुतम् ध्यात्वा प्राप्य शक्तिमनोत्तमां पुत्रानुत्पादयामास मानसां शुभलक्षणाम् मरिचिः प्रसितः तेषाम् अभवत् सृष्टिकर्मणि तस्य पुत्रोऽख्यातः कश्यपः सर्वसम्मतः त्रयोदशैव तस्यासम् भार्या दक्षसुताः किल देवाः सर्वे सम्भोत्पन्ना दैत्या यक्षा च पशवः पक्षिणश्चैव तस्मा सृष्टिस्तु काश्चपि देवानां प्रतितः सूर्यो विवस्वान्नाम तस्य तस्य पुत्रः स विख्यातो वैवस्वनृपः तस्य पुत्रः तथे शाकुः सूर्यवंशविवर्धनः न वा मनो इक्ष्वकुपूर्वजहे तेषां नामानि राजेन्द्रे शृणुष्वैकमनः पुनः इक्ष्वाकुवरसनाभागो दुष्टश्चर्यातिरेवचे नरिष्यन्तस्तथा प्रांशुर्नृगोद्दिष्टश्च सप्तमहे करुषश्च पृषद्रश्च न वैते मानवास्तुतः स्तु मनोपुत्रः प्रथमः समदायत तस्य पुत्रम् चासीत् ज्येष्ठो भिक्षु ज्येष्ठो विकोऽक्षिरात्मवान् नवानां वंशविस्तारम् सङ्क्षेपेण निजामये शूराणाम् मनोभोत्राणाम् मनोरन्तरजन्मनां लाभागश्चित् पुत्रोऽभूत् अम्बरीश प्रतापवान् धर्मज्ञापालन तत्परः दृष्टात्तु धार्चकम् क्षत्रम् अदायत संग्रामकातरम् सम्यक् ब्रह्म कर्मरतं तथा सूर्यातेस्तनयश्चाभूत् आनर्तो नाम विश्रुतः सुकन्या च तथा रूपलावण्यसंयुताय चवनाय सुता दत्ता राज्ञाभ्यन्धाय सुन्दरे मुनीस्थलो च नोदात तस्याशीलगुणेन वेतोरविपुत्राभ्याम् अश्विभ्यामिति न श्रुतं जन्मेद उवाच सन्देहोऽयम् अहं ब्रह्मन् कथायं कथित त्वया यद्राज्ञा मुदयेन्धाय दत्ता पुत्री सुलोचनाय रूपा गुणहीना वा नारीलक्षणवर्जिताय पुत्री यदा भवेद् राजा तदान्धाय प्रयच्छति ज्ञात्वा धं सुमुखीम् तस्मात् दत्तवान् नृपसत्तमः कारणम् ब्रूहि मे ब्रह्मन् अनुग्राह्योऽस्मि सर्वदाय इति राज्ञो वचः श्रुत्वा परीक्षेत श्रुतस्य वै द्वैपायनप्रधन्नात्मा तम् उवाच हसन्निवेशत सुतश्रे वार्यासे नाम पार्थिवः तस्य स्त्रीणां सहस्राणि चत्वार्या सन् परिग्रह राजपुत्र्यः सरूपाच सर्वलक्षणसंयुतः पत्न्यप्रेमयुतः सर्वः प्रिया राज्ञः सुसम्मतः एका पुत्री सुधासाम्बै सुकन्या नाम सुन्दरी च मातॄणाम् सर्वासां च अरुहासिनी नगरान्नाति बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् हंसकारण्डवाकीर्णम् चक्रवाकोपशोभितम् धात्युः सारसाकीर्णम् सर्वप्रक्षे गणानुभूतं पञ्चधाकमलोपेतं चीक सुसेवितम् पार्श्वतश्च द्रुमाकीर्णम् वैष्टितम् पादपैश्च शुभे साले सालयतमालै सरलैः पुन्नाग शोकमण्डितम् वटाश्व कदम्बै च कदली कण्डराजितम् जम्बीरै बीजपूरै च कर्जुरैः पनसैत क्रमुकै नारिकेलै च केतुकैः कनद्रुमै के युतिका जारकै शुभ्रैः संवृत्तं मल्लिकागणैः जम्वामृतीय कुटजावृतं पलाशय निम्बखदिर बिल्वा मलकमण्डितम् बभूव कोकिलारकास्वन विराजितम् तत्समीपे शुभे देशे पादपानां गणावृते भार्गवश्च वनश्रन्थ तापसः संस्थितो मुनिः ज्ञात्वा सौविजनं स्थानम् तपत्ते समाहितः कृत्वा धृळासनम् भवनम् आधाय जितुमारुतः इन्द्रियाणि च संयम्य तक्ताहारस्तपोनिधिः जलपानाधीरयितौ ज्यान्यासे परिगा सवलमीको भवराजता पिवेटि कालन माजन सामकर्ण पिपील तथा स्मृत धीमान मृत्व शर्व का महे पाल का आजगाम सरोराजम् विहत्तु शर्याति सुन्दरी वृन्द संयुतः सलिले अमले क्रीडाशक्तो मयि पालो बभूव कमलाकरे सुकन्यावनमासाद्य विजहार सखीवृताय सुमनांसि विचिन्वन्ति चञ्चला चञ्चलोपमा सर्वाभरण संयुक्ताय ऋणचरणपुराय सङ्क्रममाणवल्मीकं च वनस्य समागतः सदत आसक्तोपविष्टा स वल्मीकस्य समीपतः ददर्शे चास्य रन्ध्रे वै कद्योत इव ज्योतिषी किमेतदिति समुद्ध मनोदधे गृहीत्वा कण्टकं तीक्ष्णम् स्वर्माणा कृशोदरी सा दृष्टा मुनिनाबालाय समीपस्थाय कृतोद्यमाय विचरन्ति सुकेशान्ताय मन्मथस्येव कामिनी तान् वीक्ष्य सुत किं क्षामकण्ठस्तपोनिधि तम किम् एतदिति भार्गवहे दूरं <दोरंगस्य> गच्छ विशालाक्षि तापसोऽहं वरन् <भरन्रे> मा भिन्दस्वाद्य भल्मेकम् कण्टकेन <काम>, कृशोधरी तेनेदं प्रोच्यमानापि <पी> सा चास्य न <नुण> शृणोति <श्रुनों> वै <वी> किमुल्विदमित्युक्त्वा निर्विभेदास्य लोचने दैवोदिता <ननो> <त्वाग> जगामहे नृपकन्यकाय क्रीडन्ति शङ्खमानासय किं कृतं तु मयेति च शुक्रोधता तथा विद्धे नेत्रपरममन्युमान् वेदनाभ्यर्थितः कामम् परितापम् जगामहे शक्रुन्मूत्र निरोधोऽभूत् सैनिकानाम् तु तत्क्षणात् विशेषेण भूपस्य सामात्यस्य समन्ततः गजोष्ट्रे सुरगाणां च सर्वेषां प्राणिनां तदा ततो रुद्धे शकृन्मूत्रे शर्याति दुःखितोऽभवेत् सैनिकैः कथितं तस्मै शक्रन्मूत्रनिरोधनम् चिन्तयामास गोपालः कारणम् दुःखसम्भवे विचिन्त्य हे ततो राजा जन तथा गृहमागत चिंता तने पश्चिम भागे वन मध्ये महात तप्चर दुचरण के अकतम त्रेता पीड़ा तमोत्पन्ना सर्वेषामिति निश्चयः तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः केनापि अपकृतं मन्ये भार्गवस्य महात्मनः ज्ञातं वा यदि वा ज्ञातं तस्येदम् परमोत्तमम् कैश्च दुष्टये कुतं तस्य हेलनं तपसत्यः इति पृष्ठा तमुचोते सैनिकः वेदनादितः मनोवाक्याय जनितं न विद्मोपकृतम् वयम् इति श्रीमद्देवी भागवते महापुराणे तादृशदास्यां संहितायां सप्तमस्कन्धे चर्याति राजवर्णनं नाम द्वितीयोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु